अठष्पंचाश तुम कृतरस तमै क्रोधमाहारयामा सुधि तीव्रमकंपन क्रोधमूर्छितु धुन्वन परमकाक दृष्ट् तो कर्मशत्रू सथिवाक्यम्रवीत त्राव रथंपय सारथे एते च बलिनो घ्नन्ति सुबहून् एते च बलवन्तो वा भीमकोपाश्च वा नराः द्रुमशैलप्रहरणास्तिष्ठन्ति प्रमुखे मम एतान्निहन्तुमिच्छामि समरश्लाघिनो ह्यहम् एतैः प्रमथितम् सर्वम् रक्षसाम् दृश्यते बलम् ततः प्रचलिताश्वेन रथेन रथिनाम् वरः हरीनभ्यपतद्दूराच्छरजालैरकम्पनः न स्थातुम् वा नरा शेकोः किम् पुनर्योद्धुमाहवे अकम्पनशरैर्भग्नाः सर्व एवाभिदुद्रुवुः महाबलः तम् महाप्लवगम् दृष्ट्वा सर्वेते ते प्लवगर्षभाः समेत्य समरे वीराः सम्भृष्टाः पर्यवारयन् यवस्थितम् हनूमन्तम् ते दृष्ट्वा प्लवगर्षभाः बभूवुर्बलवन्तो हि बलवन्तमुपाश्रिताः अकम्पनस्तु शैलाभम् हनूमन्तमवस्थितम् महेन्द्र इव धाराभिः शरैरभिववर्षः अचिन्तयित्वा बाणौघाञ्छरीरे पातितान् कपिः अकम्पनवधार्थाय मनो दध्रे महाबलः सप्रहस्य महातेजा हनूमान्मारुतात्मजः अभिदुद्रावतद्रक्षः कम्पयन्निव मेदिनीम् तस्याथ तेजसा बभूवरूपम् दुर्धर्षम् दीप्तस्येव विभावसोः आत्मानम् त्वप्रहरणम् ज्ञात्वा क्रोधसमन्वितः शैलमुत्पाटयामास वेगेन हरिपुङ्गवः गृहीत्वा सुमहाशैलम् पाणिनैकेन मारुतिः स विनन्द्यमहानादम् भ्रामयामास वीर्यवान् पुराहिनमुचिम् सङ्ख्ये वज्रेणेव पुरन्दरः अकंपनस्तु तद्दृष्ट्वा गिरिशृङ्गम् समुद्यतम् दूरादेव महाबाणैरर्धचन्द्रैर्व्यदारयत् तम् पर्वताग्रमाकाशे रक्षो बाणविदारितम् विकीर्णम् पतितम् दृष्ट्वा हनूमान् क्रोधमूर्च्छितः सोष्वकर्णम् समासाद्य रोषदर्पान्वितो हरिः तूर्णमुत्पाटयामास महागिरिमिवोच्छ्रितम् तम् गृहीत्वा महास्कन्धम् सोश्वकर्णम् महाद्युतिः प्रगृह्यपरया प्रीत्या जघान हनुमान् धीमान् राक्षसांश्च पदातिगान् तमन्तकमिव क्रुद्धम् सद्रुमम् प्राणहारिणम् हनुमन्तमभिप्रेक्ष्य राक्षसा विप्रदुद्रुवुः तमापतन्तम् सङ्क्रुद्धम् राक्षसानाम् भयावहम् तदर्शाकम्पनो वीरश्चुक्षो भचननाद च स चतुर्दशभिर्बाणैर्निशितैर्देहधारणैः निर्विभेदमहावीर्यम् हनूमन्तमकम्पनः स रथा विप्रकीर्णस्तु नाराचैषितशक्तिभिः हनूमान् ददृशे वीरः प्ररुढ इव सानुमान् विरराजमहावीर्यो महाकायो महाबलः पुष्पिताशोकसङ्काशो विधूम इव पावकः शिरस्याभिजघानाशु राक्षसेन्द्रमकम्पनम् सवृक्षेण हतस्तेन सक्रोधेन महात्मना राक्षसो वानरेन्द्रेण पपात च ममार च तम् दृष्ट्वा निहतम् भूमौ राक्षसेन्द्रमकम्पनम् व्यथिता राक्षसाः सर्वे क्षितिकम्प इव द्रुमाः त्यक्तप्रहरणाः सर्वे राक्षसास्ते लङ्कामभियजस्त्रासाद् वानरैस्तैरभिद्रुताः ते मुक्तकेशाः सम्भ्रान्ता भग्नमाणाः पराजिताः भयाच्छ्रमजलैरङ्गैः प्रस्रवद्भिर्विदुद्रुवुः अन्योन्यम् ये प्रमच्छन्तो विविशुर् नगरम् भयात् पृष्ठतस्ते तु सम्मूढाः प्रेक्षमाणा मुहुर्मुहुः तेषु लङ्काम् प्रविष्टेषु राक्षसेषु महाबलाः समेत्यहर यः सर्वे हनुमन्तमपूजयन् सोऽपि सर्वान् हरीन् सम्प्रत्यपूजयत् हनूमान् सत्त्वसम्पन्नो यथार्हमनुकूलतः विनेदुश्च यथा प्राणम् हरयोजितकाशिनः चकृषुश्च पुनस्तत्र स प्राणानेव स वीर शोभाम भजन् महाकपिः समेत्य रक्षांसि निहत्य मारुतिः बलश्च लक्ष्मणः तथैव सुग्रीव महाबलस्तदा शे श्रीमद्राणे वाक आजिका युद्धकांडे षट सर्ग